श्री श्रीपरमात्मने नमः तम् तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तमिदम् वाक्यम् उवाच मधुसूदनः इदं शरीरं कं ते क्षेत्रमित्यभिधीयते वेत्तितं प्राहु क्षेत्रज्ञ इति तद्विदः क्षेत्रज्ञं चापि विद्धि सर्वक्षेत्रे शुभारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानम् यत्तज्ज्ञानं मतं मम अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्चमध्यञ्च भूतालामन्त एव च जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्ममृतस्य च तस्मादपरिहारेर्थे न त्वं शोचितुमर्हसि न जायते म्रियते वा कदाचिन् नायम् भूत्वा भवितावा न भूयः अजो नित्यः शाश्वतोऽयं पुराणो नहन्यते हन्यमाने शरीरे अच्छेद्योयमदायम् अक्लेद्योषोऽष्य एव च नित्यः सर्वगतस्थाणुः अचलोऽयं सनातनः अविनाशितु तद्विद्धि येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ना सतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तः त्वनयोस्तत्त्वदर्शिभिः यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत न तद्भासयते सूर्यो न शशाङ्को न तद्धामपरमं मम अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां यम् प्राप्य न निवर्तन्ते तद्धामपरमं मम निर्मानमोहाजितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमौ व्ययम् तत् यशास्त्रविधिमुत्सृज्य वर्तते कामकारतः न सिद्धिमवाप्नोति न सुखं न परां गतिम् समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्स्वविनश्यन्तम् यः पश्यति स भक्त्या त्वनन्यया शक्य अहमेवं विधोर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः श्रद्धावान् लभते ज्ञानं, तत्परः संयतेन्द्रियः ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति तेषाम् सततयुक्ताना भजताम् प्रीतिपूर्वकम् ददामि बुद्धियोगं तम् येन मामुपयान्ति ते तेषामेवानुकम् पार्थम् अहमज्ञानजं नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ज्ञानेन तु तदज्ञानम् येषाम् नाशितमात्मनः तेषामादित्यवज्ज्ञानम् प्रकाशयति तत्परम् इन्द्रियाणि पराण्याः इन्द्रियेभ्यः परम् मनः मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना जहिशत्रुं महाबाहो कामरूपं दुरासदम् यथै कुरुते यथिधि सम् भस्मसतेर्जुन ज्ञानाकर्मा कुरुते तथा ये सरं भा कामसङ्कल्पवर्जिताः ज्ञानाग्निदग्धकर्माणम् तमाहो पण्डितम् बुधाः कामक्रोधवियुक्ताना यतीनां यतचेतसा अभितो ब्रह्मनिर्वाणम् वर्तते विदितात्मना शनैः शनैरुपरमे बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ततस्ततो नियम्यैतद् आत्मन्येव वशं नयेत् यतेन्द्रियमनो बुद्धिः मुनिर्मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः सर्वभूतस्थमात्मानम् सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः अनन्याश्चिन्तयन्तो मा ये जनाः परियुपासते तेषाम् नित्याभियुक्ताना योगक्षेमं वहाम्यहम् तेषाम् ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः बहूनां जन्मनामन्ते ज्ञानवान् माम् प्रपद्यते वासुदेवः सर्वमिति स सुदुर्लभः रजहाति यदा कामा सर्वान् पार्थमनोगता आत्मन्येवात्मना तुष्ट स्थितप्रज्ञस्तदोच्यते विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहंकारः सशान्तिमधिगच्छति यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयो द्वेगैः मुक्तो यः स च मे प्रियः यस्त्वात्मरतिरेव स्या आत्मतृप्तश्च मानवः आत्मन्येव च तस्य कार्यम् न विद्यते कृतेनार्थो नाकृतेनेह कश्चन न चास्य सर्वभूतेषु कश्चिदर्थव्यपाशयः यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ईश्वरः हृद्देशेऽर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रूढानि मायया तमेव शरणं सर्वभावेन भारत तत्प्रसादात् परां शान्तिम् प्स्यसि शाश्वतम् ॐ श्री परमात्मने नमः हरि ओम् तत्सत्